द्रौपद्या सह सङ्गम्य वन्द्यमानस्तया प्रभुः महानसेतदानीन्तु साधयामास पाण्डवः संस्कृतम् प्रसवम् यान्ति स्वल्पमन्नञ्चतुर्विधम् अक्षय्यौ वर्धते चानन्ते न भोजयते द्विजान् भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि शेषम् विघस सञ्जन्तु पश्चाद्भुङ्क्ते युधिष्ठिरः युधिष्ठिरं भोजयित्वा चेषमश्नाति पार्श्वति द्रौपद्यां भुज्यमानायान्तदन्नं क्षयमेति च यन् दिवाकरात् प्राप्य दिवाकर समप्रभः कामान् मनोभिलषितान् ब्राह्मणेभ्यो ददात् प्रभुः पुरोहित पुरोगाश्च तिथि नक्षत्र पर्वसु यज्ञियाथाः प्रवर्तन्ते विधिमन्त्र प्रमाणतः ततः कृतस्वस्ययना पाण्डवाः विज परिवृताः प्रययुः काम्यकम् इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि काम्यकवन प्रवेशे तृतीयोऽध्यायः